अथ द्वितीयाष्टके षष्टप्रश्नः प्रारम्भः स्वाद्वीन् स्वात्मना तीव्रान् तीव्रेण अमृता अमृतेन मधुमदेशो सोमेन सोमास्यश्यभ्याम् बचस्व सरस्वत्यै वचस्व इन्द्राय सुत्राम्ने वचस्व परितोषम् चमगो हविः तन्वानर्याप्सुरा सुषावम् सोम सूर्यसुता वायुः पोदः पवित्रेण प्राङ् सोमो इन्द्रस्य यज्ञस्य सखा वायुः पवित्रेण गृह्णामि सरस्वत्या इन्द्राय सुत्रा एष तेयोमस्तेजसे त्वा वीर्यायत्वा तेजोऽसि तेजो मेधेहि वीर्यमसि वीर्यम् मेधेहि परमसि परम् मेधेहि सगुणसदः कृतम् माशगुणसृक्षाताम् परमे व्योमन्न सारस्वतम् वीर्यम् ऐन्द्रम् परम् एष तेजो निर्मोदायित्वा आनन्दायित्वा महदायित्वा जो मेधेहि मन्युरसि मन्युम् मेधेहि महासिंहो मैधेहि महा सहासि सहा मेधेहि व्याघ्रम् विशोचिका उभोदृगम् सेमम् पात्मगोहतः सम्भृतस्तसम्मा भद्रेण वृङ्गभृतस्थर्मापात्मना वृङ्गोराजामृतगोणजहाम् हृतेन सत्यमिन्द्रियम् विपानगो शुक्रमन्धसः इन्द्रस्येन्द्रियम् इदम्बयो सोममध्यम्य विपद छन्दसाषद् हृतेन सत्यमिन्द्रियम् हृद्याः क्षीरम्य विपदेन सत्यमिन्द्रियम् यणावृतः सत्यमिन्द्रियम् वेदेन रूपे व्यकरोद सदा सती प्रजापतिः कृतेन सत्यमिन्द्रियम् सोमेन सामो व्यवत् सदासदौ प्रजापतिः कृतेन सत्यमिन्द्रियम् दृष्ट्वा रूपे व्याकरात् सत्यामृतय प्रजापतिः अश्रद्धामृतय श्रद्धा सत्यय प्रजापतिः सत्यमिन्द्रियम् इदम् यन्तम् सोमकोराजानमेव भक्षयामि यदत्र रिक्तगमरचनस्वस्य यदिन्द्राभिगच्छति अहन्तरस्य मनसा शिवेन स्वमगौराजानमेन भक्षयामि पितृभ्यः स्वाविभ्यः स्वधा नमः पितामहेभ्यः स्वधाविभ्यः स्वधा नमः प्रवितामहेभ्यः स्वधाविभ्यः स्वधा नमः अक्षन्वितरः अमीव दन्तपितरः अदेतरपन्तपितरः अमीव दन्तपितरः पितरः शृन्धुध्वम् पुनन्तु मापितरः सौम्यासः पुनन्तु मातामहाः पुनन्दप्रविदामहाः पवित्रेण सुधायुषा पुनन्तु पवित्रेण सतायुषायुर्व्यवै यज्ञहायोगो शुभे स्वानस्वर्जनः पुनन्तु मादेव जनाः जातवेदः पवित्रविद्यते पवित्रमत्युषीविदर्वैश्वदेवी पुनती येषः पितरोयमराजये ये ये ये ये लोकस्वधा नमः यज्ञो देवेषु कल्पदाः समनसः जीवा मामकाः दी� ये शाकुश्रीर्मयि कर्पदाम् अस्मिन्लोके शतको समाह ये श्रुणम् मे अस्तु आत्मसनि प्रयासनिवयसनि लोकसनि अग्निप्रजाम्बुहराम् मे करोतु योतो अस्मासु यन्ति अश्विना यज्ञकोसविता सरस्वती सरस्वदेवम् सुरयामोत्रानयन् बाधमानाः सपवन्त न्न माता कुम्भोगनिष्टद्यः यस्मिन्न क्रेयोन्यान्यर्भवन्तः नाशेर्व्यक्तस्य तेन वंदे गस्वादाम बेद्रुप्या मम भगवन् सरसस्य सदेना निष्पाप पवित्रमस्य नास गंवसरसदि चरपन्न भायत जगत्स्वालः असितन्नजय पाहल सागरस्री अस्य ज्ञान अक्षर अमृतग्रहाभ्याम् चागयतेजः अविशासुदेना कृष्णान् योदो मे कलेर्दाणि तेजो न सकमदतुमदाजे कर्ममेषां न विद्यया प्राणस्य बन्धा अनुभोगाभ्याम् ृगस्वश्रो अग्रलोमम् इन्द्रियाणि न्द्रेण चोदरमुदम् दधाना सरस्वतीयोऽन्यान्यर्थः अश्विभ्याम् पत्नी सुकृतम् विभत्ति अपाकं वरुणानसाम्नाः इन्द्रीये जनयन्नस्वराजाः ृधो मुत्रो सुवर्णोऽसिैर्देवैः क्षत्रस्य नाभिरसि क्षत्रस्य योनिरसि शिवोमासीद श्वशनामासीद मात्माहिपुंसेत मांसे विशदातु वर्णः साम्राज्याय सकृदोः देवस्य त्वासविदःप्रसवे अश्विनाग् बाहुभ्यास्ताभ्याम् अश्विनार्भेषत्येन खेदने ब्रह्मवर्गतायाभिषिञ्जामि देवस्य त्वासविदःप्रसवे अश्विनाग् बाहुभ्याम् ओष्णास्ताभ्याम् सरस्वीभेषान्नाद्यायाभिषिञ्जामि देवस्य त्वासविदःप्रसवे अश्वाभ्याम् इन्द्रस्येन्द्रियेण श्रीयस देवलायाभिषुञ्जामि कोऽसि नमोऽसि तस्मै त्वा कायत्वा सुश्लोकामङ्गला सद्य राजा शिरोमे श्री शक्येशास्त्यश्मश्रूणि राजा मे प्राणोमृदम् सम्राक्षाक्षोद्रम् जुह्वा मे भद्रम् वाङ्महः मनो मोदाप्रमोदाङ्गुलीरङ्गानि सिद्धम् मे सह भावो मे परमिन्द्रियम् हस्तौ मे कर्मवीर्यम् आत्मा शत्रे राष्ट्रमुदो देवास्थश्रोण्यो गोरो हरत्नी जानुनिङ्गानि सर्वतः सिंहाभ्याम्भ्याम् धर्मो अस्मि विशिराजा प्रतिष्ठितः प्रतिक्षत्रे प्रतिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतिष्ठामि घोषो प्रत्यङ्गेषु प्रतिष्ठाम्यात्मन् प्रतिप्राणेषु प्रतिष्ठामि पुष्टे एकादशायस्त्रिवंशाेन यज्ञो यं सामान्यषट्कारैः मेकामान् समर्थयन्तु भूस्वाहाप्रियधर्मः इत्येवहेडनम् देवादस्य कर्माभयम् अग्निर्मादस्मादेन सह विश्वान्मुहम्भयम् आयुर्मातस्मादेन सह विश्वान्मुञ्जत्वस्मादेन सहत्वे धे येन कस्यादि धर्मणि तस्या भेजनमसि यदा मित्रा महाभगवशधे सन्तो निर्मित्रास्तस्मै भूयासो योऽस्मान् विष्मः द्रुपदादिवेन्ममुजानीमलादिवम् पवित्रेणैवाद्यम् आपश्यन्धन् सहद्वयम्परि पश्यन्दो ज्योतिरुत्तरम् देवन्देत्रासौर्यम्भज्योतरुत्तमम् प्रतिहितो प्रत्यस्तोस्य वाचः हेतोस्येति श्रीमहि समिदसि तेजोसितेजोमेधेः अपोन्वचारिषम् क्ष्महि समुषामिदम् सम जगद वैश्वानर्यासम्भङ्गामम् वैष्णवै भो स्वाहायते भिरिन्द्रपीडितम् आदिष्वानमर्थ्यम् देवोदेवैः सवीर्यः वज्रः स पुरन्दरः वेताजस्य हो गर्यज होदायक्षत्वरिषेन्द्रनिषत्वरम् वृषभर्न्यापसम् प्रायणा विश्वयन्तामृतामृतः द्वारमीढुषेन्द्रस्य धेनो सुघे मातरो मही स मातरोनुसीसमिन्द्रमर्थस्य होताय क्षत्रै व्याहोतारा विषधासखाय अविषेन्द्रम् विषज्यतः अभिदेवो प्रजेतसौ इन्द्राय दत्तैन्द्रियम् गीतामाद्यस्य होदर्यया होदायक्षत्यश्रो देवी त्रयस्त्रिधातपदःस्वदीभारतीन्द्रपत्नेरविष्मदी इयन्वाद्यस्य होदर्यया होदायक्षत्वष्टारवीन्द्रम् देवम् विषजगौ श्रीयम् रथश्रियम् यष्टाददिन्द्रियाणि हेद्वाद्यस्य होधर्यज होदायक्षद्वनस्पतिम् शविदारकंशतकृतम् हियाजौष्टारमिन्द्रियम् अर्धासमञ्जन्मथिभिः सुगेभिः स्वदादि हव्यम् मधनाकृतेन हेद्वाद्यस्य होधर्यज होदायक्षतिन्द्रगस्वाहाद्यस्य स्वाहामेतसः स्वाहा शोकानाम् स्वाहा स्वाहा कृतीनाम् स्वाहा स्वाहा देवागोहाजपान् स्वाहेन्द्रगोहोत्राद्युषाज्यस्य वियन्तो होदर्यज समिद्धेन्द्रवृशधामनीके प्रोजापूर्भकृत्वा वृथानः त्रिभिर्देवै त्रिकोंशधा वज्रबाहो ज्यम् विदुरोभवार न राशगंसप्रदिशो रोमिमानः गोभिर्पपाभान्वसनासमञ्जन् हरण्यैश्चन्द्रेजप्रचेताः पीडिता देवैर्हरिवागमाभिष्टे नायुष्मानाहविषाशर्धमानः पुरन्दरामखवानवज्रबाहो आयातुयज्ञमुपनाशुषाणः शाणाबरिहरिवाह्न इन्द्रः काजीनकोसे तत्प्रतिशापृथिव्याः उविधाः प्रथमारगश्यानम् आदित्ये रक्तम् वसुभिः सजोषाः इन्द्रन्दरक्तवश्यो ी स्वारो देवी रतो बृहन्तम् पयस्वती सुखेशो रविन्द्रम् देव्यामिमाना मनसा पुरुत्रा होदा राविन्द्रम् प्रथमा सुवाचनयज्ञस्य मधुना दधाना प्राचीन विश्वा देवीर्हविषा वर्धमानाः इन्द्रन्नन्दम् सरस्वती भारती विश्वर्येन्दृषणम्भूनिरेताः यज्ञस्य मिदान देवः इन्द्रस्य हवीर्जठरम् मृणालः सदादि हव्यम् मधुना कृतेन स्वाकानामिन्दुम् पृषोरैन्द्रः वृषभस्तुराषा मधुना हव्यमन्धन्न सत्यमिद्धन्नत्वागो अन्यास्ति इन्द्रदेवो न हिम्पयानमन्नः अवासुजोपाच्छासमुद्रम् रसदाहिषे पुरुहो दश्रोन् ज्येष्ठस्य सुष्मैः रात्रिणे नाम सोनि पति रेव्यारीरिन्द्रीरवत्स्तीर्णम् वेद्यामवर्धयतम् असमने वसुधेयस्य वेद्विज देवी द्वार इन्द्रको सङ्घाते प्रयत्येष्टाम् सुप्रीते सुभूताम् असुमेव देवीजो श्रीवसुति देवमिन्द्रमर्थम् अयाव्यन्याघाद्वेषागोधि मान्यावा क्षेत्रसवार्याणि दीयमानाय दीक्षिते समनेव सुधेयस्य पीतान्ये सुहे अयतेन्द्रमर्थताम् इशमोर्जमन्यावा क्षेदसख्यको सपेति मन्या नवे नो नयमाने यजमानाय शिक्षिते वसुधेयस्य वेदान्यवादेव्याराष्टाय शिक्षितौ सुधेयस्य वेदान्यज देवे स्तस्रस्तिस्री अधिमवर्धयन् तत्मम् यज्ञकोदस्वतीयस्य देवेन्द्राणराशकंसः त्रिवरोधस्त्रिवन्दः देवमिन्द्रमर्थयत् शलेन दे, श्रीपृष्ठा नामाहितः सहस्रेण प्रवर्तते वित्रा वृणेदस्य होत्रमरहतः बृहस्पतिस्तोत्रम् अश्विनाध्वर्यवम् देवेन्द्रवनस्पतिः हिरण्यवर्णा मधुशाखस्वपि पलः देवमिन्द्रमर्थयत् मम क्रेणाप्राद् आन्तरिक्षम् ्रेणासन्नम् अन्या बहिष्यभ्यपूर् असुवने वसुस्य वे तुविधा देवोऽग्निःश्रेष्ठ सवनेन सयस्य वेदुमिदा औतायक्षत समिधाग्निमेणत्वते अश्विने नरोद सरस्वते अजोधोम् प्राणकौसो मेखपलेभ्यशदम् मदसुस्पैन देहेंद्रियं अयस्माः परश्रदाहदम् मद इन्पाज्यस्सहोदर्यजः औतायक्षत नवनभात्स सरस्वति खवेन मेजान भेषदम् अथम सुमदाहरण अश्वरेन्द्राय वेद्यम् मदैर् रूपभागभ्यशदं तोक्वे कृतम् इन्द्रम्बेन वर्धयन्न अश्विने कर्कन्धवेश्रदायक्षत्रर्गेन सरस्वतीन्द्राय भेषजम् अयस्वामः परिश्रता कृतम् मधोद्वाजस्य अवश्यानव्यजस्वती अश्विभ्यान्स्वती अश्विनेन्द्रादिभेषणम् अश्विना सञ्जामाने समुञ्जाते सरस्वत्यामः र्यता तिस्रो देवेऽर्नेषम् ते जात रूपमिन्द्रेभारती राजा सरस्वती महेन्द्राय दधरिन्द्रियम् ृता घृतम्पतिम् कृतम् स्वाहा स्वाहास्वत्यै पाहऋषभमिन्द्राय सुगुहाय सहजेन्द्रियम् पाहाग्निभेजदम् पाहासाममिन्द्रियम् पाहेन्द्रगोसत्रामाणगोंसवितारम् वरुणम् भिषजापदिम् स्वाहायम् वा धाभेदम् स्वाहार्नेषेभै सुताः दोग्मभिः पायैर्महस्वन्तः सरेण परिश्रुताः शुक्रापैः स्वन्तामृताः मधः श्रुतः पानश्मिना सरस्वदींत शुत्रामा पृत्रहा पिष्ञंता को सोम्यम्मधु पबंतमतंत पिएंतौसोम् उतरक्यजा समिध्धाक्म रश्मिना तप्तो कर्मा विदाग्स्थथः नगेधे नस्रस्वधी स्वामको शुक्रने अंद्रियं तनुपा भिश यजस्वती अश्विभ्यान्द्रोरोगे ष्टायकरोधस्वते ीन्द्रियम् आ शुक्रमासुराधसो रघवेन्द्राय जभ्ररेना सरस्वती हविषेन्द्रिभेदम् अश्विनोभासुरस्वतीभ्यनौषदा हविषा यज्ञमिन्द्रियम् यतो सवितावरुणाभगः स सुत्रामा हविष्पले यजमानाय सस्यदा सवितावरुणाद यजमानाय दाशुषे आदत्तनुजेर्वसो सुत्रामाफलमिन्द्रियम् वरुणः क्षत्रमिन्द्रियम् भगवत्याय सदा श्रीं सूत्रमाय सलाभं धानायज्ञमासदा अश्वनागोवेंद्रियं अश्वैवर्भेर्यं बलम् भजेंद्रगौदरस्पति यजमानोर्द्धेन पाणाः सुच्चाः स्वस्य सदा ऋणं वत्नेन सदा सरस्वत्यै विश्वते इन्द्रकर्मस्रावतः ैवी विषासा मेन्द्रे सरस्वती ज्योष्ठभ्यान्सुेवन्द्रिया देवी गोप्याहु नेन्द्रवत्यश्विनाभिषुदावता शुकर्ण ज्योतिष्वहुतीन्द्रियम् देवा देवानाम ेवना देवेऽस्तिसेवी सरस्वश्विनाभारतीयनाभ्याम् सुवनेव सृधेयस्य वियं तु यंश त्रिवरोधः सरस्वत्याश्विभ्यामेतैर्थः हे लोनलोकमृतम् जनित्रम् इन्द्रा यथोष्टाद्रियाणिभ्याम् सरस्वत्याश्रिफलः इन्द्रायच्छ्योतिर्षाम् इन्द्रियाणि वयम् तुम् बहिर्वारदीनाम् अश्विभ्याम् ृष्ठखल श्रेष्ठेन्द्रितावरुणाभिषो देवा वनस्पतिः श्रेष्ठा देवाद्यपाः न् गृह्णम् गृहान् अधन्नश्विभ्याञ्चस्वत्या इन्द्रायन् सरस्वत्यै वेषमिन्द्राय अश्विभ्याम् पद्ध्राय ऋषुभमश्विभ्या गोसरस्वत्यै सोमस्था देवो वनस्वतिरभवत् अश्विभ्यागेण इन्द्रायाश्विषभेणाम्नः न्नपादवर्णीता श्रींसुधाजमानः बहुभ्यः सङ्गतेभ्यः एष मे देवेशमसुवार्यायक्षरैः तान्यस्मा आदितास्व आचकुरस्व शिलस्य होदरसिभद्रवाच्यायप्रेषु तव मानुषः सूक्ताकाय सूक्ता ब्रूहि छन्दस्वा ह वामः आनो ज्ञेतुकेतनाः ग्निष्वात्ताहे नराशे मेथय आशो ये नान्तस्वष्कृतेष्वात्ताय्वात्ताः पितरसौम्यासः परे परे भवन्तः करम्भम् अग्निष्वात्तार्थः इन्द्रवन्तोषन्ता एतादृते वत्रादेहमानाः हविषापर्यन्न उपासदम् सः प्रजाम्पदे समिधानम् महद्यसः अग्निमिन्द्रम् व योदम् गायत्रीम् छन्द्रियम् छन्देन्द्रियम् त्रिवत्सङ्गाम् व योधत वेद्वाद्यस्य छन्देन्द्रियम्ब योधर्यजा देवानामुषः होदा रादेव्या कली श्रीलेन्द्रम् वयोधसम् जगतीन्द्रियम् हरण्वाहङ्गा मे द्वाद्यस्य होदर न्द इहेन्द्रियम् देदङ्गान्वतायक्षत्सुलेदसम् अष्टारम् पुष्ट्यवर्धनम् रूपाणि विभ्रतम् पृथक् पुष्टिमिन्द्रम् वयोधसम् विभजन्द इहेन्द्रियम् कुक्षाणङ्गान्न वयोधत वेत्पाद्यस्य होद्रियजा होदायक्षच्छच्छतकृतम् ङ्गाम् सुषमित्था वरेण्यः गायत्रीछन्द्रियम् त्रिवत्सगौरवयोदधो सुबिरग्निर्मत्यः पञ्चाभित्कौरयोदधो देवेर्पतिः पङ्क्तिछन्देन्द्रियम् इहेन्द्रियम् षड्वाङ्गौरयोज ैडासरस्वती भारतीन्देन्द्रियम् अष्टाद्रीदः ौर्नवयोक्षत्रियम् असन्तरेण तेजसा हविरिन्द्रेव योज भीष्मेण देवार्जुनादित्याः वैरूपेण हविरिन्द्रेव योज श्यादेवाः एकविंशरुतम् वै राजेन श्रिया श्रियम् हविरिन्द्रेव योजधो हेमन्देन मरुदत्रिणवेस्तुतम् श्रीरे नेवा देवी देवमिन्द्रम् देवी देवमवर्धयन् कृष्णन्दसेन्द्रियम् प्राणमिन्द्रेव योधत ेवीन्दसेन्द्रेव योधत हसुमनेवीज्योत्वे देव योधसम् देवी देवमर्थतान्दसेन्द्रियम् स्वामिन्द्रेव योधत् हसुमनेव सृदेव स्वीताण्जा देवी भूज्याहुती देवेन्द्रम् योधसम् ेवी देवमवर्धदा अन्त्याचन्दसेन्द्रियम् शुक्रमिन्द्रेव योधत वसुवने वृदेवन्द्रेव योधने वसुधेश्व देवो न राजकुंसो देवमिन्द्रं व योधसम् राजासन्दसेन्द्रियम् हे दीन्द्रोधेयस्य हसवनेव सुधेयस्य वे दुयुदा एवं बहिर्वारदीनां देवमिन्द्रं योधसम् असुवनेवो अग्निश्रेष्ठकर्देवमिन्द्रम् देवो देवमर्थयुत अतिच्छन्दसान्द्रियम् क्षत्रेव सुधेयस्य वेद्वयदा इति द्वितीयाष्टके षष्टप्रश्च समाप्तः